श्रीगणेशभुजङ्गम् प्रणत्क्षुद्रघण्टानिनादाभिरामम् जलत्ताण्डवोद्दण्डवद्पद्मतालम् प्रसत्तुन्दिलाङ्गोपरिव्यालहारम् गणाधीशमीशानसूरुमीडे मेध्वं सवेयोल्लासिवक्त्रम् स्फुरच्छुण्डदण्डोल्लसत् बीजपुरम् कलद्गर्पसौ गन् जलोलालिमालं गणाधीशमीशानसूनुमीडे प्रकाशज्य भातारुणज्योतिरेकम् प्रबलम्बोदरं वक्रतुं दैकदन्तं गणाधीशमीशानसूनुमीडे विचित्रस्फुरद्रत्नमालागिरेकं गिरीकोल्लसच्चन्द्ररेखा विभूषम् भूषैकभूषम् भवध्वं सहेतुम् गणाधीशमीशानसूनुमीडे उदञ्चद्भुजा वल्लरी दृश्यमूलोर्चलद्भ्रूलता विभ्रमभ्राजदक्षम् मरुत्सुन्दरी चामरैः सेव्यमानम् गणाधीशमीशानशूं तमीडे स्फुरन्निष्ठुरालोलबिङ्गाक्षितारम् कृपा गोमलोदारलीलावतारम् कलाबिन्दुगं गीयते योगिवर्यै गणाधीशमीशानशूं तमीडे मेकाक्षरम् निर्मलं निर्विकल्पं पुनातीतमानन्दमाकारशून्यम् परम्पार ओङ्कारमाम्नाय गर्भम् वदन्ति प्रगल्भम् पुराणं तमिडे चिदानन्दसान्द्राय शान्ताय तुभ्यम् नमो विश्वकर्त्रे च हस्त्रे च तुभ्यम् नमोऽनन्तलीलाय कैवल्यभासे नमो विश्वबीजप्रसीदेशसूनो इमं संसमम् प्रातरुद्धाय भक्त्या पठेद्यस्तु मर्चो लभेत् सर्वकामान् गणेशप्रसादेन सिध्यन्ति वाचो गणेशेऽपि भव दुर्लभम् किं प्रसन्ने श्रीगणेशभुजङ्गस्तोत्रम् सम्पूर्णम्